गच्छम् सम्भत त्वम् सम्भो मनासि जानताम् सङ्गच्छ त्वम् सम्भत त्वम् Check one Somebody Check one मन्त्रये समाने न वो हविषा जुहोमि समानो मन्त्रः समिति समानि समानम् मनः सह चित्रमेषां नवो अभिषाचु सङ्गच्छ त्वम् संवदत्वम् सम्बोमनासि जानताम् सङ्गच्छम् संवद